अध तृतीयस्कन्दः युद्धारम्भे कौरवाणां तीर्थस्नानाय निर्गदः विदुरो यमुनातीरे ददर्शोद्धवमागदम् श्रुत्वान्तर्धानपर्यन्तं कृष्णचारित्रमुद्धवाद शोकाकुलान्धकरणो मैत्रे यान्तिकमापसः प्रदीक्षमाणो विदुरं ह्यकृष्णप्रेरितो मुनिः बोधनार्थं व्यास सुहृदास्ते गङ्गातडे शुभे तत्पादयो प्रणम्याः सौ पप्रभगवद्गुणान् मैत्रेयो वर्णयामास पराशरमुखाच्रुतान् सृष्ट्या देवैष्णविरलीला योगमाया विलासजाः कालरूपस्य च हरेः प्रभावमपि चोक्तवान् सृष्ट्या देवैष्णविरलीला योगमाया विलासजाः कालरूपस्य च हरेः प्रभावमपि चोक्तवान् भुवं प्रजाधार भूतामग्नामर्णववारणि वराहरूपेणो धर्त्रा हिरण्याक्षो हदो बली यो हरे पार्श्वदशब्दः सनकादिभिराकुलः भ्रंशिदकाश्यपादित्या मसुरः समजायत मनोपुत्र्यां देवूतियां भार्यां कर्दम सह नव पुत्र सुत्पन्ना हरिपुद यस्त विस्तृत जनाजीवयन कारुण्यात् कपिलो नाम्नाज्ञानशास्त्रमचीकरद प्रजापदिभ्यः पुत्री स्वा सम्प्रदा यदु कर्दमः अनुज्ञादो भगवदा सन्न्यस्यापहरेः पदम् पृष्ठो मात्रा शास्त्रसारं कपिलो दययान्विदः ज्ञानं भक्तिं कर्म गतिं योगं चावर्णय स्फुटं शरीरत्रय निर्मुक्तमवस्थात्रय भासकम् परं तत्त्वं यतज्ञानात् बन्धः संस रदामिव निष्कामानां महात्मनां प्रसादेन हरे शीघ्रम् पादा मनोरमं पादातिहासपर्यन्तं हरेरूपम् मनोरमम् सामग्र्येणैकदेशेन चिन्तये ध्यानमङ्गलम् नराणाम् त्रिवृद्धालोकास्वर्गनारकमानुषाः पुण्यम् पापमिश्रमिति कर्मणां परिपाकजाः इत्युक्त्वा मादरं सिद्धै सन्नुधः कपिलोगमद कृतार्था भूद्वहूदिर्ध्यानयोगपरा सदी इति तृतीयस्कन्धः